ज्ञाविष्णो सजोषसेवा वर्धन्तु भाङ्गिरः जुम्नेर्वाजेभिरागधम् वाजश्च मे प्रसवश्च मे प्रगतिश्च मे प्रसितिश्च मे धेतुश्च मे क्रतुश्च मे शरश्च श्लोकश्च मे स्नावश्च मे श्रुतिश्च मे ज्योतिश्च मे शुभश्च प्राणश्च मे बाणश्च मे व्याजश्च मे शुश्च मे चित्तञ्च म आधीतञ्च मे वाक् च मे मनश्च मे चक्षुश्च मे श्रोत्रञ्च मे दक्षश्च मे वलञ्च मे भोजश्च मे सहस्तम आयुश्च मे जरा च च मे धनोश्च मे सर्वच मे मर्मच मेङ्गा निज मे स्थानि च मे वरोगम् निज मे शरीरा निज मे ज्येष्ठ्यञ्चम आधिपत्यञ्च मे मन्यश्च मे भावश्च मे मश्च मे जे मे महिमा च मे मरिवाच मे च मे भस्माच वृद्धञ्च मे वृद्धश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनञ्च मे बहश्च मे चतुषिश्च मे क्रीडा च मे मोजश्च मे जातम् च मे जनिष्यमाणञ्च मे सूक्तम् मे वित्तञ्च मे वेद्यञ्च मे भूतञ्च मे भविष्यश्च मे सुगन्त मे सुपथञ्च वृद्धञ्च वृद्धश्च मे मे कृत्यश्च मतिश्च मे सुमतिश्च मे सञ्च मे मगश्च मे प्रगञ्च मेऽुकामश्च मे कामश्च मे सौवनसश्च मे भद्रञ्च मे श्रेगश्च मे मत्स्यश्च मे गशश्च मे मगश्च मे द्रविणञ्च मे गन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वञ्च संविच मे ज्ञात्रञ्च मे सोश्च मे प्रसोश्च मे चीरञ्च मे नयश्च मे ऋतञ्च मे मृतञ्च मे गक्ष्मञ्च मे नामयश्च मे मे रसश्च मे घृतञ्च मे मधुच मे सक्तिश्च मे सफीतिश्च मे कृतिश्च मे मृष्टिश्च मे जैत्रञ्जम औद्विद्यञ्ज मे रगिश्च मे रागश्च मे मुष्टञ्ज मे मुष्टिश्च अन्नत्य मे क्षत्यमे वृहगश्च मे आश्च मे भाषाश्च मे निलाश्च मे मुद्गाश्च मे कल्वाश्च मे गोधूमाश्च मे मधुराश्च मे प्रियङ्गमश्च मे नमश्च मे श्यामागा अस्मा च मे मृत्तिका च मे गजगश्च मे पर्वताश्च मे शिखदाश्च मे वनस्पतगश्च मे हिरण्यञ्च मे गश्च मे शेषञ्च मे त्रवश्च मे श्यामञ्च मे लोहञ्च मे गश्च आपश्च मे वेरुधश्च म औषधजत मे गरटभज मे गरटभज्यञ्च मे ग्राम्याश्च मे पदव आरण्याश्च गजेन कल्पन्ताम् मे वृत्तिश्च मे भोतञ्च मे भूतिश्च मे वसुच मे वसतिश्च मे कर्मच मे शक्तिश्च मेऽर्थश्च मगे वश्च म गतिश्च मित्रश्च महेन्द्रश्च मे वरुणश्च महेन्द्रश्च मे कृष्टा च मे धाता च मे विष्णश्च महेन्द्रश्च मे शिरो च महेन्द्रश्च मे हरुतश्च मे विश्वे च मे देवागिन्द्रश्च मे मे अन्तरिक्षम् च मे द्यौश्च महेन्द्रश्च मे दिशश्च महेन्द्रश्च मे धा च महिन्द्रश्च मे प्रजापतिश्च महिन्द्रश्च मे अगुंसुश्च मे रश्म्यश्च मेधाभ्यश्च मेधिपतिश्च मुपागुंसुश्च मे अन्तर्यामश्च मऐन्द्रवायवश्च मे मेत्रावरुणश्च महाश्रिनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे वैश्वारश्च मरुतग्रहाश्च मे जग्राह्या आग्नश्च मे वैश्वदेवश्च मे मरुत्वदेयाश्च मे माहेन्द्रश्च मादित्यश्च मे साहित्रश्च मे सारस्वतश्च मे पोष्ठश्च मे मातृवदश्च मे हार्यो जनश्च मे यत्वस्त मे वरिहस्त मे वेदस्तमे दृष्टयाश्च मे श्रुजस्त मे चमसाश्च मे ग्रामाणश्च मे सरवस्तम गुमनवाश्च मे धनपटेतमे द्रोणकलशश्च मे वायुव्यायतमे ओजभृष्टम आलमणे समाग्धञ्च मे हविधानञ्च मे गृहाश्च मे सदश्च मे शाश्च मे भृताश्च मे महृतश्च मे स्वघाघारश्च मे अग्निश्च मे घर्मश्च मे शर्गश्च मे सूर्यश्च मे प्राणश्च मे स्वमेधश्च मे ऋषभे च मे द्विष्ट मे द्वितिश्च नित्य मे साम च मे स्तोमश्च मे यजश्च मे दीक्षा च मे तपश्च मे ऋतुश्च मे व्रतञ्च मे होरात्रयोर्मृत्या बृहत्र सन्धरे च मे यद्येन गर्भाश्च मे वत्साश्च मे त्रविश्च मे त्रवे च मे च मे पञ्चाभिश्च मे पञ्चावी च मेत्र वत्सश्च मेत्र वत्सा च मेदञ्जवाच्य मेदञ्जोहे च मे अष्टवाच्यमेवोहे च मुक्षा च मे वसा च प्राणो यद्येन कल्पता महानो गद्येन कल्पताम् चक्षुर्गज्ञेन कल्पता विश्वात्रम् यज्ञेन कल्पदाम् मनोभिज्ञेन कल्पता भाभिज्ञेन कल्पता महात्मा विज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पता एकाच मे तिस्रश्च मे पञ्च च मे सप्त च मे नवतमये एकादश च, च मे त्रयोदश त्रयाभिगम् जष्ट मे पञ्चभिगम् दधिष्ठ मे सत्यभिगम् दजश्च मे नवभिगम् जश्च मे एकत्रिकम् सत्यमे त्रयस्त्रिकम् सच्य मे चतस्रश्च मेष्टौच मे द्वादशच मे षोडश च मेऽभिगम् सतिश्च मे मे द्वात्रिकम् सत्यमे क्षत्रिकम् सत्यमे चत्वारिकुम् सत्यवैजतश्चत्वारिकुम् सत्यमेष्टचत्वारिकम् सत्यमे वाजश्च प्रथवश्चाबिजश्चक्रतश्च शुभश्च भोर्धा च दश्विजश्चान्त्यागरश्चान्द्यश्च भौवनश्च भुवनश्चाधिपतिश्च या देवोर्मनर्गजने बृहस्पतिरक्षामतानिकम् दृढद्विश्वे देवाः सूक्तवाच प्रथिमे वामायकम् देवम् मधु मनुष्ये मधुजनिष्ये मधुमक्ष्यामि मधु मदिष्यामि मधुमदेयम् देवेभ्यो वाचमुद्याचकम् शुश्रोषेण्या मनुष्येभ्यस्तम् वा देवावन्तु सौभाग्यै